गणेशपुराणम् उपासनाखण्डम् अध्यायं सेवन्टिटु शूरसेन उवाच व्रते जादे कथमभूतयोः पुत्रशतक्रतो तत्सर्वं मे वद विभो विस्तरात् परिपृच्छतः इन्द्र उवाच किं किम् किं न जायदे राजन्परितुष्टे गजानने प्रसादा तस्य सा राज्ञी गर्भदध्रे नृपस्य यद प्रसूदा नवमे मासि पुत्रमैक्षद द्विस्कन्धं चारुवदनं बाहुहस्तविवर्जितम् सुनाः सम्पद्मनयनमुरुजानुविवर्जितं जङ्घा पादविहीनं तं दृष्ट्वा मादा रुरोदः सोवाच दुर्भगायाः कथमभूदीदृशो बालको मम करपादविहीनोऽयं कथं दत्तो गजानन आसम शुभा व्यव किमीदुत्रव कथा नाशो मे पूर्वजन्मस कथम प्रसाद फलितरदान कदम ब्राह्मणवाक्यालादश पाणिभ्यां निघ्नदीवक्षो ललाटं च मुहुर्मुहुः तस्यां रुदत्यां सर्वां स्था रुरुदुस्तत्र या स्थिताः तासां कोलाहलं श्रुत्वा नृपोऽपि तत्र चागमद तस्यापि तेषां च श्रुत्वा नागरा रुदुस्तदा राजोवाच केयं दीनानुकम्बित्वं तव देव गजानन कथं दया कृदा तेद्य मह्यमेवं प्रदर्शिता कथं स्मरणमात्रेण पापानि हरसेनख जपस्तपस्मृतिर्दानपूजनं द्विचतर्पणम् अनुष्ठानं तथा होमः सर्वं व्यर्थं गतं मम तस्माद्यैवं हि बलवत् प्रयत्नस्तु निरर्थकः न ज्ञायते कर्मगधिकदा किं वा भविष्यति मूषक प्राप्यते यद्वत्पर्वतस्य विधारणात् तथा मे जनिपुत्रेयमाजन्म कृदयत्नदः तद ऊजुः प्रकृतयो नृपं शोकाकुलं तदा प्रधानावूजुः अलं शोकेन भूपालकथम् भाव्यन्यथा भवेद रामः किं न मृगं वेद तत्पृष्टं धर्मराजो नकिं किं वेद निषिद्ध्यं द्यूतकर्म तद तथापि स गदो सर्वं हित्वा वनं गदः चायुता न भवेद्यस्य भ्रशमाक्रन्तिदे सति अदृष्टं चेत् भवेत् सम्यग्रे चारुरयं भवेत् पुष्पं फलं वा कालेन यथा याधिमहीरुहा तथा कालेन भविधा सम्यक् च पृथिवीपतिः इन्द्र उवाच इत्यमात्यवच्रुत्वा सावधानो भवन्नृपः उवाच नृपपत्नीं तामुत्तिष्ठोत्तिष्ठमाशुचः स्वयं च सुमना राजा समाहूयद्विजोत्तमान् गणेशपूजनं चक्रे स्वस्ति वा कृत्याभ्युदयिकश्राद्धं ददौ दानन्यनेकषः माल्यालङ्कारवासांसि गावो रत्नान्यनेकशः सुहृत्सम्बन्धिभृत्येभ्यो वस्त्राणि विविधानि सः नानावादित्रजीवेभ्यो ददौ राजा यधार्हदः बन्दिचारण दीनान्थकृपणेभ्यश्च सर्वशः गृहे गृहे च ताम्बूलशर्करा दापयच्छ सः कार्तवीर्येदिनामास्य चकारैकादशेहनि भोजयामास नगरं महोत्साहः पुरःसरं ततो द्वादशवर्षाणि व्यतीतानि सुदस्यः आययौ स्वेच्छया तस्य दत्तात्रेयस्तदा गृहम् पादयो स्वशिरस्थाप्य कृतवीर्यो ननामतम् आलिलिङ्गमुनिस्तं स उद्धाय नृपसत्तमं उपविश्यासने रम्ये पूजयामाससादरं विष्टरं पाद्यमर्घ्यं च गां च वस्त्रोपवीतकं ददौद्धूपं च दीपं च नैवेद्यं विविधं फलम् उद्वर्तनं च ताम्बूलं रत्नकाञ्चनदक्षिणां सुप् प्रसन्नं सुखासीनं पादः संवाकनादिभिः उवाच राजा सम्यक्दं दत्तात्रेयं महामुनिम् जन्मजन्मान्तरीयं मे पुण्यं फलिदमद्य वै यच्चर्म चक्षुषां जातं साक्षात् ते दर्शनं मुने अग्रे शुभतरं भाविः प्रसादात् यदो भवादृशं नैव दर्शनं पापकर्मणां कृतवीर्यवच श्रुत्वा दत्तात्रेयस्तमब्रवीद अपूर्वं तनयं तेद्य द्रष्टुकामोहमागतः तदा आनन्दयुक्तोऽसौ नृपः प्राहमुनिं पुनः नृप उवाच अनुष्ठानं तपोदानं वृथा मम गदं व्रतं जगदीशेन दत्तोऽयं पुत्रो हृच्छल्य एव सः अनेना दर्शनीयेन गदश्चाद्दर्शनीयताम् इन्द्र उवाच आनीय बालकं तस्मै मुनये दर्शयन् नृपः आच्छादयन्नेत्रकञ्चे तत्सुदं वीक्ष्य सन्मुनिः ज्ञात्वा ध्यानेन तत्कर्मं पुनरब्रवीद अयमेव सुतो राजन्कर्ता सर्वान् विजित्यः नाचान्तोऽसि विजृम्भ्यत्वं सङ्गष्टीव्रतजागरे निन्दितो व्रतराजस्तु सर्वसङ्गनाशनः अङ्गहीन सुदोजाद उपायात् साङ्गदामि याद राजोवाच हृदमुक्तं त्वया स्वामिन् कृपां कृत्वा वदस्व मे येनोपायेन साङ्गो मे त्वत्प्रसादात्सुतो भवेद् इन्द्र उवाच मुनिः सकृपया विष्टस्तत्सुताय तदाब्रवीद मन्द्रमेकाक्षरं साङ्गं तद ऊचे पुनश्च आराधनं गणेशस्य मन्द्रेणानेन ना भक्तिः उपवासैकभक्तानां नियमान् कुरु सुव्रत द्वादशाब्दं ततस्तुभ्यं दर्शनं स च दास्यति तद्दृष्टिपादमात्रेण दिव्यदेहो भविष्यसि इत्युक्त्वा नृपमा मन्त्र्यपिदधे मुनिपुङ्गवः गदे मुनौ ततः पादहीनो महामनः जगाद कृतवीर्यं गहनं प्रापयस्य मां गजाननप्रसादार्थमनुष्ठानं करोम्यहं ऋदित्व पितर उतस्य श्रुत्वा वाणीं तदीरिदाम् अप्रेषयद्वनं चारो नरयानेन तं भृत पर्णगुड़ी मध्ये संस्था नगर व्ययु तस्थ त्र स्वयं सम्यक्त निश्चयपुराणे उपासनाखंडे दिसप्तम ओं